द्विजप्रभावाद्राजेन्द्रव्यजीव सवनस्पतिहि तेनागम्य नर श्रेष्ठ पुंसास्मासु निवेदितं यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च एतत्ते कथितं राजन यथा दृष्टं श्रुतं चयत यत् श्रुत्वा चन्द्रपशार्दूलविधत्स्वयदनन्तरं सौ तिरुवाचा मन्त्रिणां तु वचः श्रुत्वा जनमेजयः पर्यतप्यत दुःखार्थप्रत्यपिंशत्करं करे निश्वासमुष्णमसकृत् दीर्घं राजीवलोचनः मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन् नृपः उवाच च महीपालो दुःखशोकसमन्वितः दुर्धरं भाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि मुहूर्तमिव च ध्यात्वा निश्चित्य सर्वानिदं वचनमब्रवीत् जनमे उवाच श्रुत्वैतद्भवताम् वाक्यम् पितुर्मे स्वर्गतिम् प्रति निश्चितेयम् मम मतिर्या च तां मे निबोधत अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने प्रतिकर्तव्यमित्येवम् येन मे हिंसितः पिता शृङ्गिणम् हेतुमात्रम् यः कृत्वा दग्वा च पार्थिवम् दुरात्मता तस्य काश्यपम् योऽन्यवर्तयत् यदागच्छेत् स वैविप्र ननु जीवेत्पिता मम परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः काश्यपस्य प्रसादेन मन्त्रिणाम् विनयेन च स तुवारितवान्मोहात् काशपं द्विजसत्तमम् सञ्जिजीवयिषुम्प्राप्तं राजानमपराजितम् महानधिकमोहेश तक्षकस्य दुरात्मनः द्विजस्ययो दद्रव्यं मानृपं जीवयेदिति उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियं भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारीक्षितमन्त्रिसंवादे पञ्चाशत्तमोऽध्यायः